नारायणीयं दशकम् हण्ड्रेड् मीटर श्रद्धरा अग्रे पश्यामि तेजो निबिडतरकलायावलीलोभनीयं पीयूषाप्लाविदोऽहं तदनु तदुदरे दिव्यकैशोरवेशं तारुण्यारम्भरम्यम् परमसुखरसास्वादरोमाञ्जिताङ्गैराविदं नारदाद्यैर्विलसदुपनिषत्सुन्दरी मण्डलैश्च नीलाभं कुञ्जिदाग्रं कनममलतरं संव्यदं चारुभङ्ग्या रत्नोक्तं साभिरामं वलयिदमुदयचन्द्रकैष्पिञ्च जालैः मन्दारस्रग्निवीतम् तव पृथुक वरीभारमालोकयेहम् स्निग्धश्वेतोर्ध्वपुण्ड्रामपि च सुललिताम् बालबालेन्दुवीधीम् हृद्यम् पूर्णानुकम्पार्णवमृदुलहरी चञ्चलभ्रूविलासैरानीलस्निग्धपष्मावलिपरिलसितम् नेत्रयुक्मं विभोते सान्द्रच्छायं विशालारुणकमलदलाकारमामुग्धारं कारुण्यालोकलीलाशिशिरिदभुवनं क्षिप्यतां मय्यनाथे उत्तुङ्गोल्लासिनासं हरिमणि मुकुरप्रोल्लसद्गण्ठपालीव्यालोलत्कर्णपाशाञ्चिदमकरमणि कुण्डलद्वन्द्वदीप्रम् उन्मीलद्दन्तपङ्क्तिस्फुरदरुणतरचाय बिम्बाद्धरान्धप्रीति प्रस्यन्ति मन्दस्मितमधुरतरं वक्त्रमुद्धा सतां मे बाहु द्वन्द्वेन रत्नोज्ज्वलवलयभृता शोणपाणिप्रवालेनोपातां प्रसृतनखमयूकाङ्गुली सङ्गषारा कृत्वा वक्त्रविन्दे सुमधुरविकसद्रागमुद्भाव्यमानैः शब्दब्रह्मामृतैस्त्वं शिशिरिदभुवनैः सिञ्जमे कर्णवेधीम् उत्सर्पत्कौस्तुभश्री तदिभिररुणितकोमलम् कण्डदेश्यं वक्षश्रीवत्सरम्यन्तरलतरसमुद्दीप्रहारप्रदानं नानावर्णप्रसूनावलिकिसलयिनीं वन्यमालां विलोलल्लोलम्बां लम्बमानामुरसि लंबा तवधता भावये रत्नमालाम् अंगे अङ्गे पञ्चाङ्गरागैरतिशयविकस्सत्सौरभा कृष्टलोकं लीनानेकत्रिलोकी विततिमपि कृष्यां बिभ्रदं मध्यवल्लीं ज्वलकनकनिभं पीतचलं दधानं द्यायामो दीप्तरश्मिस्फुटमणिरशना किङ्गिणी मण्डितं त्वाम् पूरुचारूतवोरु खनमसृणरुचौ चित्तचोरौ रमाया विश्वक्षोभं विषं यद्ध्रुवमनिशमुभौ पितचेलावृताङ्गौ आनम्राणां पुरस्तान्यसनधृत समस्तार्थपाली समुद्गच्छायं जानुद्वयं च क्रमपृथुलमनोज्ञे जङ्घे निशेवे मञ्जीरम् मञ्जुनादैरिव पदभजनम् श्रेय इत्यालपन्तम् पादाग्रम् प्रणद जनमनो मन्धरोद्धारकूर्मम् उत्तुङ्गाताम्र राजन्नखर हिमकरज्योत्स्नया सन्तापध्वीं तदमनगल मंगला मंगुनाना योगींद्राणेकसुमधुर मुक्तिभाजा निवासो भक्ता काम वर्षुतुसल नाधते पादमूल नित्यम् चित्तस्तिदं मे पवनपुरपदे कृष्णकारुण्यसिन्धो कृत्वा निःशेषदावान् प्रदिशदु परमानन्दसन्तोहलक्ष्मीम् अज्ञात्वा ते महत्त्वम् यदिह निगदितम् विश्वनाधक्षमेधाः स्तोत्रम् च इदत्सहस्रोत्तरमधिकतरम् त्वत्प्रसादाय भूयात् द्वेधा नारायणीयं श्रुतिषु च जनुशास्तुत्यदा वर्णनेन स्वेदं लीलावतारैरितमिह पुरुदामायुरारोग्यसौख्यं सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द इति मेल्पतो श्रीनारायण भट्टगिरिवर्यविरचितम् नारायणीयं स्तोत्रं समाप्तम्